खंडम तु वृन्दावनखण्डम् अध्यायं ट्वेण्टि टु रासक्रीडावर्णनम् नारद उवाच अथ कृष्णगुणान् रम्यान् समेधा सर्वयोषितः जगुस्थानस्वरैरम्यैकृष्णागमनहेतवे गोप्य ऊचुः लोकाभिरामजनभूषणविश्वदीप कन्दर्पमोहनजगद्वृजिनार्तिहारिन् आनन्दकन्द यदुनन्दन नन्दसूनो स्वच्छन्दपद्ममकरन्द नमो नमस्ते गोविप्रसाधुविजयध्वज देववन्द्य कंसादिदैत्यवधहेतुकृतावतार श्रीनन्दराजकुलपद्मदिनेशदेव देवादिमुक्तजनदर्पणते जयोऽस्तु गोपालसिन्धुपरमौक्तिकरूपधारिन् गोपालवंशगिरिनीलमणे परात्मन् गोपालमण्डलसरोवर कञ्जमूर्ते गोपालचंदनवने कलहं समुख्यः श्रीराधिकावदनपङ्कजपदस्त्वं श्रीराधिकावदनचन्द्रचकोररूपः श्रीराधिका हृदयसुन्दरचन्द्रहार श्रीराधिकामधुलता कुसुमा करोऽसि यो रासरङ्गनिजवैभवभूरिलीला योगोऽपिका नयनजीवनमूलहाराः मानं चकाररकसा किल मानवत्यां नयनाग्रगामी योगोऽपि कासकलयूथमलं चकार वृन्दावनं च निजपादरजोभिरद्रिं यत्सर्वलोकविभवाय बभूव भूमौ चन्द्रं प्रतप्तकिरणज्वलनं प्रसन्नं सर्वं वनान्तमसि पत्रवनप्रवेशं बाणं प्रभञ्जनमदीव सुमन्दयानं मन्यामहे किल भवन्दमृदे व्यथार्ताः सौदासराजमहिषी विरहाददिव जातं सहस्रगुनिदं नलपट्टराज्ञ्याः तस्मात्तु कोटिगुणितं जनकात्मजायाः तस्मादनन्दमधिदुःखमलं हरेणः श्री उद्धवत्सकलभक्तशिरोमणीषः त्वत्पादपद्मवरमुख्यधिकारी तस्माद्वयं च चरणौ शरणं गता स्मः श्रीमन्कृपां कृषण्यपदे शरण्ये श्रीनारद उवाच युद्धं राजरुदन्तीनां गोपीनां कमलेक्षणः आविर्बभूव सहसा स्वयमर्धमिवात्मनः स्फुरत्किरीडकेयूरकुण्डलाङ्गदभूषणम् स्निग्धामलसुगन्धाढ्यनीलकुञ्जितकुन्तलम् आगतं वीक्ष्य युगपत् समुत्थस्तु व्रजाङ्गना तन्मात्राणि च यं दृष्ट्वा यथा राधया सहिदो राजन्यधारत्या रधीश्वरः यावतीर्गोपिका सर्वस्तावद्रूपधरोहरिः गच्छन्ताभिर्व्रजे रेमे स्वावस्थाभिर्मनो यथा वनोद्देश्ये स्थितं कृष्णं गददुःखाव्रजाङ्गनाः कृताञ्जलिपुडावूचुर्गिरा गद्गदया हरिं गोप्य ऊचुः क्व गदस्त्वं वद हरे त्यक्त्वा गोपी गणो महान् सर्वं जगतृणीकृत्य त्वत्पादे प्राप्तमानसं श्रीभगवानुवाजा हे गोप्यपुष्करद्वीपे हंसो नाम महामुनिः समुद्रे दधिमण्डोदे तदा पान्तर्गतस्तपः चकाराहयितु कीं भक्तिं मम ध्यानपरायणः व्यतीतं तस्य तपदो गोप्यो मन्वन्तरद्वयं तमद्यैवाग्रसन्मत्स्यो यो जनार्धवपुर्धरः तन्निर्जगारपौण्ड्रस्तु मत्स्यरूपधरोऽसुरः एवं सम्प्राप्तकष्टस्य हंसस्यापि मुनेरहं गत्वाध शिखरेणतयो शिरश्चित्वरिणा मुनिं मोचयित्वाथ गतवान् श्वेदद्वीपे व्रजाङ्गनाः क्षीराब्धौ शेषपर्यङ्गे शयनं तु मया कृतं दुःखिता भवतीर्थ ज्ञात्वा निद्रां त्यक्त्वा तदप्रियाः सहसा भक्तवस्योऽहं पुनरागतवानिह जानन्ति सन्तः शोनिये जानन्दिसन्दः समदर्शोनिये दान्दामहान्ध किल नैरपेक्ष्याः ते नैरपेक्ष्यं परमं सुखं मे ज्ञानेन्द्रियादीनि यथा गोप्य ऊचुः क्षीराब्दौ यद्रूपं च त्वया तद्रूपदर्शनं देहि यदि प्रीतोऽसि माधव श्रीनारद उवाच तथास्तु चोक्त्वा भगवान् गोपी व्यूहस्य पश्यदः दधाराष्ट्रभुजं रूपं श्रीराधारूपमेव च तत्र क्षीरसमुद्रो भूल्लोककल्लोलमण्डितः दिव्यानि रत्नसौधानि बभूवुर्मङ्गलानि च तत्र शेषो विसश्वेधकुण्डलीभूतसंस्थितः बालार्कमौलिसाहस्रभणाच्छत्रविराजितः तस्मिन् वै शेषपर्यङ्गे सुखं सुष्वापमाधवः तस्य श्रीरूपिणी राधापादसेवां चकारः तद्रूपं सुन्दरं दृष्ट्वा कोडिमार्दण्डसन्निभं नत्वा गोपीगण विस्मयं परमं गताः गोपीभ्यो दर्शनं दत्तं यत्र कृष्णेन मैथिल तत्र क्षेत्रं महापुण्यं जातं पापप्रणाशनम् अथ गोपीगणैः यमुनामेत्यमाधवः माधवः कालिन्दीजलवेगेषु जलकेलिं चकारः राधा कराल्लक्षदलं पद्मं पीताम्बरं तथा धावञ्जलेषु गतवान् प्रहसन्माधवः स्वयं राधा हरे वशी वेत्र गृहीत्वा प्रपसंदी सा गच्छन्ती यमुना जले वंशी देहीतिवदत श्रीकृष्णस्य महात्मनः राधा जगादकमलं वासो देहीति माधव कृष्णो ददौ राधिकायै पद्ममं परमेव च राधा ददौ पीतपडं वेत्रं वंशीं महात्मने अध कृष्णकलं गायन् माला गजामः प्रियायास्तत्र शृङ्गारं चकार कुशलेश्वरः पत्रावली यावकाभ्राय पुष्पै कञ्चुलकुङ्गुमैः चंतना गुरु चंदना गुरकूरीसरादर्हरेर्मुखे पत्र चकार श्रृंगारे मनोज की नीतिगर्ग संहितायां वृंदावनखंडेसक्रीडननाम द्वांशोध्या